अध्यायं सवन् खण्डं वन् ओधीः भगवदिहोपससादसनत्कुमारन्नारदस्तगुम्भोवाच यद्वेद्धते नमोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति सहोवाचर्ग्वेदं भगवोऽध्येमि यजुर्वेदगुम् सामवेदमाधर्वणं चतुर्थमितिहास पुराणं पञ्चमं वेदानां वेदं पितृगं प्राशीन् दैवन्निधिं को वा कोवाक्यमेका यनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्या नक्षत्र विद्यागुं सर्पदेवजनविद्यामेदद्भगवोऽध्येमि सोऽहं भगवो मन्द्रविदेवास्मिनात्मविच्छ्रुदगुंह्येव मे भगवदृशेभ्यस्तरदिशोगमात्मविदिति सोऽहं भगवत् शोचामि तम्मा भगवाञ्चोकस्य पारन्तारयद्विदितगुंहोवाच यद्वै किञ्चैदध्यगेष्ठा नामैवैतत् नामवाऋग्वेदो यजुर्वेद समवेद आधर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाको वाक्यमेकायनन्देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैदन्नामोपाश्वेति स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गदन्तत्रास्य यधा कामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विधि अध्यायं सेवन् खण्डं वाग्वावनाम् वाग्भावनाम्नो भूयसि वाग्वा ऋग्वेदं यजुर सामवेदं यजुर्वेदगोंसामवेदमाधर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदम् पितृगुं राशिन् दैवन्निधिं वागोवाक्यमेकायनन्देवविद्यां ब्रह्मविद्यां बोधविद्यां क्षत्रविद्यान्नक्षत्रविद्यागुं सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुञ्चाकाशञ्चापश्च ते तेजश्च देवागुंश्च मनुष्यागुंश्च पशुगुंश्च वयागुंसि च तृण वनस्पदीष्वा पदान्याकीडपदङ्गपिपीलिकन्धर्मं चाधर्मं च सत्यं चानृतं च साधु च साधु च हृदयज्ञञ्चाहृदयज्ञञ्च यद्वै वाङ्ना भविष्यन्न धर्मो नाधर्मो व्यज्ञापिष्यन् सत्यन्ना नृदन् साधुना साधुन हृदयज्ञो ना हृदयज्ञो च मुेति स यो वाचं ब्रह्मेत्युपास्ते यावद्वाजो गदन्तत्रास्य यधा कामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय यदि वाचो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति अध्यायं सेवन् खण्डं त्रि मनो वाववाचो भूयो यथा वै द्वे वा मलघे द्वे वा कोले द्वै वा क्षौ मुष्टिरनुभवत्येवं वाचञ्च नाम च यदा मनसा मनस्यधिमन्त्रा न धियेत्यथा धीरे कर्माणि कुर्वीयेत्यथ कुरुते पुत्रागुंश्च पशोगंश्चेच्छेयेत्यथेच्छद इमं च लोकममुञ्चेच्छेयेत्यथेच्छदे मनो ह्यात्मा मनो हि लोको मनो ब्रह्म मन उपास्वेदि सयो यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गदन्तत्रास्य यथा कामचारो भवदियो मनो ब्रह्मेऽत्युपास्तेऽस्ति भगवो मनसो भूय यदि मनसो भावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विधि तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पे प्रतिष्ठितानि समक्लूपदान् द्य वापृथिवी समकल्पेधां वायुश्चाकाशञ्च समकल्पन्तापश्च तेजश्च तेषागुं सङ्क्लृप्त्यै वर्षं सङ्कल्पदे वर्षस्य सङ्क्लू त्या अन्नघं सङ्कल्पतेन्नस्य सङ्क्लृरुप्त्यै प्राणसङ्कल्पन्दे प्राणानागुं संक्लृप्त्यै मन्त्रा सङ्कल्पन्दे मन्त्राणागुं संक्लुरुप्त्यै कर्माणि सङ्कल्पन्दे कर्मणागुं सङ्क्लुरुप् त्यै लोकसङ्कल्पदे लोकस्य सङ्क्लृत्यै सर्वगुं सङ्कल्पदे स एष सङ्कल्पसङ्कल्पमुपास्वेधि अध्यायं सेवेन् खण्डं फोर् सङ्कल्पो भावमनसो भूयान्यदा वै सङ्कल्पयदे धमनस्यत्यधवाजमीरयदि तामुनाम्नि रयदि नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि स यत्सङ्कल्पं ब्रह्मेत्युपास्ते क्लृप्तान् वै स ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यधमानानव्यधमानोऽभिसिद्ध्यति यावत् सङ्कल्पस्य गदन्तत्रास्य यथा कामचारो भवति यत्सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवत्सङ्कल्पाद् भूय इति सङ्कल्पाद्भावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति अध्यायं सेवन् खण्डं फैव् चित्तं वावसङ्कल्पाद्भूयो यदा वै चेतयते ध सङ्कल्पयते ध मनस्यत्यथवाजमीरयदिता मुनाम्नी रयदि नाम्नि मन्द्रा भवन्दि मन्त्रेषु कर्माणि तानि कवाये तानि चित्तैकाय नानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यपि बहुविधचित्तो भवति नायमस्तीत्येवैनमाहुर्य दह्यं वेद यद्वा अयं विद्वान्निद्धमचित्तस्यादित्यथ यद्यल्पविच्चित्तवान् भवति तस्मादेवोद शुश्रूषन्ते चित्तगृह्ये वैशामेकायनञ्चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्वेति तयश्चित्तं ब्रह्मेत्युपास्ते चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रदिष्टितोऽव्यधमानानव्यधमानोऽभिषिध्यधि यावच्चित्तस्य गदन्तत्रस्य यथा कामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ध्यानं वा वचित्ताद्भूयोऽध्यायदीव पृथिवीध्या यदीवान्तरिक्षन्ध्यायदीव द्यौर्ध्यायन्ती वापोऽध्यायन्तीव पर्वताध्यायन्तीव देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्याना पादागुंशा यि वैव ते भवन्त्यथ येल्फाकलहिनः पिशुना उपवादिनस्तेऽध ये प्रभवोद्ध्याना पादागुंशा इ ते भवन्ति ध्यानमुपास्वेति सयोध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गदन्तत्रास्य यथा कामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवोद्ध्यानाद्भूय यदि ध्यानाद्वावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति विज्ञानं वावध्यानाद्भूयो विज्ञानेन वारुग्वेदं विजानादि यजुर्वेदगुम् सामवेदमाधर्वणं चतुर्धमितिहास पुराणं पञ्चमं वेदानां वेदं पितृगुं राशिन्दैवन्निधिं वागोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्या नक्षत्रविद्यागुम् सर्पदेवजनविद्यान् दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवागुंश्च मनुष्यागुंश्च पशोगुंश्च वयागुंसि च तृणवनस्पदीं श्वापधान्याकीडपदङ्गपिपीलिकन् धर्मं चाधर्मं च सत्यं चानृतं च साधु च साधु च हृदयज्ञञ्च हृदयज्ञञ्चान्नं च रसञ्चेमञ्च लोकममुञ्च विज्ञानेनैव विजानादिविज्ञानमुपाश्वेति स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवधो वैशलोकान् ज्ञानवधोऽभिसिध्यधि यावद्विज्ञानस्य गदन्तत्रास्य यथा कामचारो भवधियो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय यदि विज्ञानाद्वाव भूयोऽस्तिदि तन्मे भगवान् ब्रवीत्विति अध्यायम् सेवन् खण्डम् एय्ट् बलं वावविज्ञानाधूयोऽपिह शतं विज्ञानवदा मे गो बलवानाकम्पयदे स यदा बली भवत्यधोद्धादा भवत्युत्तिष्ठन् परिचरिता भवति परिचरन्युपसत्ता भवत्युपसीदन्त्रष्टा भवति श्रोता भवति मन्दा भवति बोद्धा भवति कर्ता भवति विज्ञादा पर्वदा बलेन देव देवमनुष्या बलेन वयागं पशवश्च वयागंसिजतृणवनस्पदयश्वापधाज्ञा पिपीलिकं बलेन लोकस्तिष्टति बलमुपाश्वेति तयो बलं ब्रमेत्युपास्ते यावद्बलस्य गदन्तत्रास्य यथा कामचारो भवदीयो बलं ब्रह्मेत्युपास्तेऽस्ते भगवो बलाद्भूय यदि बलाद्वावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति अध्यायं सेवेन् खण्डं नैन् अन्नं वावबलाद्भूयस्तस्माद्यद्यपि दशरात्रेर्नाश्नीयाद्युहजीवे दध वा द्रष्टा श्रोता मन्द बोद्धा कर्ता विज्ञादा भवत्यधान्नस्यायै द्रष्टा भवति श्रोता भवति मन्द भवति बोद्धा भवदि कर्ता भवदि विज्ञादा भवत्यन्नमुपाश्वेति सयोन्नं ब्रह्मेत्युपास्तेऽन्नवदो वयसलोकान्पानवतोऽभिसिध्यति यावदन्नस्य गदन्तत्रास्य यथा कामचारो भवति योन्नं ब्रह्मेत्युभास्तेऽस्ति भगवोन्नाद्भूय इत्यन्नाद्वावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति अध्यायं सेवन् खण्डं टेन् आपो वानाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवदिव्याधीयन्ते प्राणा अन्नङ्गनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दि न प्राणा भवत्यन्नं बहु भविष्यतीत्याप एेमा मूर्ता येयं पृथिवी यदन्तरिक्षै ये यद्ध्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयागंसि च तृणवनस्पतयश्वाप दान्याकीड पदङ्कपिपीलिक माप एवेमा मूर्ता अप उपाश्वेति स योपो ब्रह्मेत्युपास्त आप्नोति सर्वान् कामागुंस्तृप्तिमान् भवति यावदपाङ्गतान् तत्रास्य यथा कामचारो भवति योपो ब्रह्मेत्युपास्तेष्टि भगवोद्भ्यो भूय इत्यद्भ्यो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति अध्यायं सेवन् खण्डम् इलवन् तेजो जोवाद्भ्यो भूयस्तद्वा ये तद्वायुमा वर्षिष्यति वा इति ते ज एव तत्पूर्वं दर्शयित्वा दापसृजते तदेतदूर्ध्वाभिश्च तिरश्चिभिश्च विद्युद्भिराह्राश्चरन्ति तस्मादाहुर् विद्योतदेस्तनयदि वरिशिष्यदि वा इति तेज तत्पूर्वन् दर्शयित्वाद्धापसृजते ते ज उपास्वेति स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वैसतेजस्वतो लोकान् भास्वतोपसद नमस्कानभिषिध्यदि यावत्तेजसो गदन्तत्रास्य यथा कामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय यदि तेजसो वाव तन्मे भगवान् ब्रवीत्विति अध्यायं सेवन् खण्डं ट्वेल्व् आकाशो वाव तेजसो भूयानाकाशे वै सूर्या चन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्यागेशेन प्रदिशृणोत्याकाशे रमद आकाशे नरमद आकाशे जायद आकाशमभिजायत आकाशमुपाश्वेति सय आकाशवदो ब्रह्मेत्युपास्त आकाशवधो वैशलोकान् प्रकाशवधो संबाधानुरुगायवदोऽभिषिध्यधि यावदाकाशस्य गदन्तत्रास्य यथा कामाचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भगवान् ब्रवीत्विति अध्यायं सेवन् खण्डं तर्टीन् स्मरो वाकाशाद्धूयस्तस्माद्यपि बहव आसीरन्न स्मरन्दो नैवदे कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वावदे स्मरे युरध शृणुयुरध मन्वीरन्नद विजानीरन् स्मरेण वै पुत्रान्विजानादिस्मरेण पश्योऽन्स्मरमुपाश्वेति स यस्मरं ब्रमेत्युपास्तेयावस्मरस्य गदन्तत्रास्य यथा कामचारो भवधिस्मरं ब्रमेत्युपास्तेऽस्ति भगवस्मराद्भूय इति स्मराद्वावभूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति अध्यायं सेवन् खण्डं फोर्टीन् आशावस्मराद्भूयस्याश्चेद्धो वै कर्माणि गुरुदे पुत्रागुंश्च पशुगुश्चे क्षद चद आशा आशामुपाश्वेति सय आशां ब्रह्मेत्युपास्त आशायास्य सर्वे कामाः समृद्ध्यन्तमोखा हास्याशिषो भवन्ति यावदाशायागन्तत्रास्य यथा कामचारो भवदीय आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तिदि तन्मे भगवान् ब्रवीत्विति अध्यायं सेवेन् खण्डं फिफ्टीन् प्राणो वा आशाया भूयान्यधा वा अरानाभौ समर्पिता एवमस्मिन् प्राणे सर्वगं सयति पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा, वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वा स्त्वित्ये वैनमाहुपितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै वै त्वमस्याचार्यः वै त्वमसि ब्राह्मणः वै त्वमसीति अध यद्यप्येनानुत्क्रान्तप्राणाञ्चूलेन समासंव्यधिशन्दहेनैवैनं भ्रूयोः पिदृकासीदिनमादृकासीदिनभ्रादृहासिदिनस्वसृासीदि चार्यहासीति न ब्राह्मणा आसीदिति प्राणोह्येवैतानि सर्वाणि भवति सवा भवति तञ्चेद् ब्रूयुरधिवाद्यसीत्यधिवाद्यस्मीदि ब्रूयान्ना पक्नुवीत् अध्यायं सेवन् घण्डं 16. येष तु वा अधिवदति यः सत्येनाधिवदधि सोऽहं भगवत् सत्येनाधिवदानीदि सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति अध्यायं सवन् खण्डं सेवन्टीन् यदा वै विजानात्यदसत्यं वदति न विजानन् सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानन्द्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति अध्यायं सवेन् खण्डम् एय्टीन् यदा वै मनुतेध विजानादिना मत्वा विजानादिमत्वैव विजानादिमधिस्वेव विजिज्ञासितव्येदि मदिं भगवो विजिज्ञास इति अध्यायं सेवन् खण्डं नैन्टीन् यदा वै श्रद्दधात्यध मनुदे नाश्रद्दधन्मनुदे श्रद्धध देवमनुदेश्रद्धा त्वेव विजिज्ञासितव्येदि श्रद्धां भगवो विजिज्ञास इति अध्यायं सेवन् खण्डं ट्वी यदा वै निष्ठत्यधश्रद्धदाति न निस्तिष्ठन् श्रद्धादि निस्तिष्ठन्नेव श्रद्धादिनिष्ठात्वेव विजिज्ञासितव्येदि निष्ठां भगवो विजिज्ञास इति अध्यायं 7, खण्डं 21. यदा वै करोत्यदा निस्तिष्ठदि न कृत्वा कृत्वैव निस्तिष्ठति कृतिस्वेव विजिज्ञासि दव्यधिकृतिं भगवो विजिज्ञास इति अध्यायं सेवन् खण्डं ट्वेन्टि टु यदा वै सुखल्लभते ध करोदि सुखमेव लब्ध्वा करोति सुखन्त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति अध्यायं सेवन् कण्ठं ट्वेण्टि यो वै भूमा तत्सुखन्नाल्पे सुखमस्ति भूमैव सुखं भूमात्वेव त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति अध्यायम् सेवन् खण्डं ट्वेन्टि यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानादि स भूमाध यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानादि तदल्पयो महिम्नि यदिवानमहिम्नीति गो अश्वमिह महिमेत्याचक्षदेकस्तिहिरन्यसभार्यङ्क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमी ब्रवीमीदिहोवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति अध्यायं सवन् खण्डं 25. फैव् स एवाधस्तात्स उपरिष्ठात्स पश्चात्स पुरस्तात् स दक्षिणतः स उत्तरतस्स ये वेदगं सर्वमिति अथातोऽहङ्कारादेशये वाह पश्चादहं पुरस्तादहं दक्षिणतोखमुत्तरतोखमेवेदघुं सर्वमिति अथात् आत्मा देश एवात्मैवाधस्तादात्मोपरिष्ठादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणद आत्मोत्तरद आत्मैवेदगं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरधिरात्मक्रीड आत्ममिथुन आत्मानन्दः आत्मा सस्वराड् तस्य सर्वेषु लोकेषु कामचारो भवति अधयण्यधातो विदुरन्यराजानस्तेक्षय्य लोका भवन्ति तेषागं सर्वेषु लोकेष्व कामचारो भवति अध्यायं 7, खण्डं 26 तस्य ह वा पश्यद एवं मन्वानस्यैवं विजानद आत्मदः प्राण आत्मद आशात्मद स्मर आत्मद आकाश आत्मतस्तेज आत्मद आप आत्मद आविर्भावतिरो भाव वात्मतोन्नमात्मतो बलमात्मतो विज्ञानमात्मदोध्यानमात्मतश्चित्तमात्मदः सङ्कल्प आत्मदो मन आत्मदो वागात्मदो नामात्मदो मन्त्रा आत्मधः कर्माण्यात्मदयेवेतगुं सर्वमिति कदेश्लोको न पश्यो मृत्युं पश्यति नरोगन्नोदुःखदागुं सर्वगुंह पश्यः पश्यति सर्वमाप्नोति सर्वश इति स एकधा भवति सप्तधा नवधा चैव पुनश्चैकादश स्मृतशतं च दश चैकश्च सहस्राणि च विगुंसदिराकारशुद्धौ सत्त्वशुद्धिसत्त्वशुद्धौ ध्रुवा स्मृतिस्मृति लम्भे सर्वग्रन्थीनां विप्र मोक्षस्तस्मै मृदितकषायाय तमसस्परन्दर्शयदि भगवान् सनत् कुमारस्तगुं स्कन्द इत्याचक्षते तगुं स्कन्द इत्याचक्षते ओ इति छान्दोग्योपनिषदे सप्तमोऽध्यायः ओ